इवतिवत् दशकम् लक्ष्मी गरलं तरला नलं पुरस्ताज् जनके उद्विजगालकालकूटम् अमरस्तुतिवादमोदनिज्ञो गिरिचस्तन्निपपौ भवत्प्रियार्थम् विमतत्सुसुरासुरेषु जात सुरभिस्तावृषिक्षु नस् दास्त्रिधामन् हयरत्नमभूतधेवरत्नम् द्युदरुश्चाप्सरसत्सुरेक्षुतानि जगदीश भवत्परा तदानी कमनीया कमला बभूव देवी अमलामवलोक्ययाम् विलोल सकलोऽपि स्पृहायाम् हृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीटिकाम् व्यतारेत् सकलोपहृताविशेषणीयै ऋषयस्तां श्रुतिकीर्प्रभश्य शिञ्चन् अभिषेकजलानुपाधिमुक्त गदभाङ्गरैव भूषिदाङ्गवल्लिम् मणिकुण्टलपीतचेलहार प्रमुखैस्तामरा दयोऽन्वभूषन् वरणस्रजमादभृङ्गनादा दधती सा कुशकुम्भमन्दयाना पतसिञ्चितमञ्जुनू कलितप्रीलविलासमाससाध गिरिशद्रिहिणादि सर्वदेवान् गुणभाजोऽव्यविमुक्तदोषलेशान् अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयाभिदिव्यमाला पुरसातरसा ममानितैना भुवनानाम् जननीमनन्यभावादुरो विनसद्धदीक्षणश्री परिवृष्ट्या परिपुष्टमासवे वि म् अतिमोहनविभ्रमाददानी मदयन्ती कलु वारुणी निरागात् तमसत्पथवी मदास्त्वमेन अधिसम् महासुरेभ्य करुणाबुधसुन्दरस्तदा त्वम् ननु धन्वन्त्रीरुद्दिदोऽम्बुराशे अमृतम् कलशेवहङ्कराभ्यम् हरमारुतालये च श्रीहरे नमः